श्रीमद्भागवतमहापुराणं नवं स्कन्ध अस सप्तदशोऽध्यायः छत्रबृद्ध रजि आदिराजांके वंशुका वर्णन् शेषोकुवाच य पुरोर्वस पुत्र आयुस्तस्या भवन्सुताः नहु स छत्रवृद्धश्च रजिरम्भश्च वीर्यवान् अनेना इति राजेन्द्र शृणु छत्रवृतोऽन्वयम् छत्रविद्धसुतस्यासन् सुहोत्रस्यात्मजाश्रयः कास्यकुशोग्रीस्मद इति ग्रीस्वदादभू शुनकशोनको यस्य बह्वे च प्रवरो मुनिः कास्यस्य काशी तत्पुत्रो राष्ट्रो दीर्घतमः पिता धन्वन्तरि दीर्घतमः आयुर्वेदप्रवर्तकः यज्ञभुग्वासुदेवांश स्मृतमात्रार्तिनाशनः तत्पुत्रकेतुमानस्य यज्ञे भीमरथस्ततः दिवो दासोदिमास्तस्मान् प्रतर्दन इति स्मृतः स एव शत्रुजित्वस्य ऋतध्वजतीरितः तथा कुलयाश्वेति प्रोक्तो लर्कादियस्ततः षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च नालर्कादपरो राजन्मेदिम्बुभुजे यिवा अलर्काः सन्ततिस्तस्मासुनीथोऽथ सुकेतरः धर्मकेतुसुतस्तस्मात् सत्यकेतुरजायत धृष्टकेतुसुतस्तस्मासु कुमार चितेश्वरः वितिहोत्रस्य भर्गोतो भार्गभूमिर्भुन्नृपः इति मे काशयो भूपा क्षत्रविद्धान्वयायिनः ब्रह्मस्य रमसपुत्रो गाम्भीरश्चाक्रियस्ततः तस्य क्षेत्रे ब्रह्म यज्ञे शृण्वन्समनेन सह शुद्धस्ततः शुचितस्मात् ककूदधर्मसारथिः ततः सान्तर्यो यज्ञे कृतकृत्य रजे पञ्चशतान्यासन् पुत्राणाम् अमिजितो अमीततोजसां देवैरभ्यर्चितो दैत्यान् हत्वन्द्राया ददाति शिवम् इन्द्रस्तस्मै पुनर्दत्त्वा गृहीत्वा चरणौ रजेः आत्मानम् अर्पयामास ब्रह् प्रह्लादाद्य ऋषङ्कितः पितर्योपर ते पुत्रा याच त्रिविष्टपं महेन्द्राय यज्ञभागान् समादरुः दुर्णाहूयमालेग्नौ बलभिन्तनयान् रजेः अवधीतभ्रंसितान् मार्गान् न कश्चिदवशेषितः कुशाद् प्रतिछात्रिद्धा सन्ध्यस्तस्तुतो जयः ततः कृतकृतस्यापि जज्ञे हर्यवरोरिपः स देवस्ततो संस्कृते तस्य च जयः छत्रधर्मामहारथ छत्रविद्धान्वया भूपा श्रुवंशं न नाहुषात् ते श्रीमद्भागवते महाप्राले प्रभुंशां शयितायां नम स्कन्धे चन्द्रवंसानुवर्णने सप्तदशोऽध्यायः